नारायणीयं दशकम् एय्ट् मल्टिपुल्मीटर्स् एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे भूया लब्धजन्मा भूयाभूयस्त्वत्तयेवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशोनिनाय निद्रात्य सौ त्वयि निलीय समं स्वसृष्टैर्नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् अस्मादृशां पुनरहर्मुककृत्यतुल्याम् सृष्टिं करोत्यनुदिनं सभवत्प्रसादाद प्राग्भ्राह्मकल्पजनुषाञ्च परायुषां तु सुप्तप्रबोधनसमास्ति तदापि सृष्टिः पञ्चाशदब्दमधुना स्ववयोर्ध्वरूपमेकं परार्थमधिवृत्त्य हि वर्तते सौ भूमन भवद्विलासान। त्यरात्रिजनिदा कथयाम भूम पश्चा दीनावेवद्विलास दिनावसनेजो निषुप्तिमस्त सन्नील्ये जगन्धिच्वर समीयुस्तदे काम तवैव वेषे भणिराजिशेषे जलैकशेषे भुवने स्म शेष्ये आनन्दसान्द्रानुभवस्वरूपस्वयोगनिद्रा परिमुद्रितात्मा कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशदा किलादौ त्वया प्रसुप्तम् परिसुप्तशक्तिव्रजेन तत्र किल जीवधाम्ना चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये कालाघ्यशक्तिप्रथमप्रबुद्धा प्राबोधय त्वां किल विश्वनाथ विबुध्य च त्वं जलगर्भशायिन्विलोक्य लोकानखिलान् प्रलीनान् तेष्वेव सूक्ष्मात्मा तया निजान्तस्थितेषु विश्वेषु ददाधदृष्टिं तदस्त्वदीयादयिनाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मं सङ्क्षेपरूपं मुकुलायमानं तदेतदम्भोरुहकुट्मलं ते कले बरातोयपथे प्ररूढं बहिर्निरीदं परिदस्फुरद्भिः स्वधामभिर्द्वान्दमलं न्यकृन्तद सम्फुल्लपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यधृते सरोजे सपद्मजन्मा विधिराविरासीत् स्वयं प्रबुद्धा किल वेदराशिः अस्मिन् परात्मन्ननुपात्मकल्पे त्वमिद्धमुद्धाविदपद्मयोनिः अनन्दभूमा मम रोगराशिं वासविष्णो ॐ सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द